नारदपुराणम् पूर्वार्थम् अध्यायम् 54 सनन्दन उवाच ज्योतिषाङ्गम् प्रवक्ष्यामि यदुक्दं ब्रह्मणा पुरा यस्य विज्ञानमात्रेण धर्मसिद्धिर्भवेन्नृणाम् त्रिस्कन्धं ज्यौतिषां शास्त्रम् चतुर्लक्षमुदाहृतं गणितं जातकं विप्र सं हि दास्कन्धसंज्ञिताः गणिते परिकर्मादिखगमध्यस्फुटकृङ्गे अनुयोगश्चन्द्रसूर्यग्रहणं तच्चोदस्याकं छाया शृङ्गोन्नतियुधि पादस्साधनमीरितं जातके राशिभेदाश्च ग्रहयो निश्चयो निजं निषेकजन्मारिष्ठानिश्यायुर्दायो दशाक्रमः कर्माजीवं चाष्टवर्गो राजयोगश्च नाभसाः चन्द्रयोगाः प्रव्रज्याख्या राशिशीलं च दृग्फलं ग्रहभावफलं चैवाश्रयोगप्रकीर्णके अनिष्टयोगाश्रीजन्मफलं निर्याणमेव च नष्टजन्मविधानं च तथा द्रेष्काणलक्षणम् संहीताशास्त्ररूपं च ग्रहचारोब्दलक्षणं तिथिवासरनक्षत्रयोगतिथ्यर्थसंज्ञकाः मुहूर्तोपग्रहास्सूय सङ्क्रान्तिर्गोचरक्रमाद चन्द्रताराबलं चैव सर्वलग्रार्थवाह्वयः आधानपुंसीमं दजादनामानभुक्तयः सौलङ्कर्ण्ययणं मौञ्जीक्षुरिकाबन्धनं तथा समावर्तिनवैवाहप्रतिष्ठासत्मलक्षणं यात्राप्रवेशनं सद्यो वृष्टिकर्मविलक्षणम् उत्पत्तिलक्षणं चैव सर्वं संक्षेपदो ब्रुवे एकं दशशतं चैव सहस्रायुधलक्षकं प्रयुधं कोटिसंज्ञां चार्बुदमब्जं च रर्वं निरर्वकर्व च महापद्मं सङ्गो जलधिरेव च अत्यं मध्यं परार्धं च संज्ञा दशगुणोत्तराः क्रमुत्क्रमदों पर कार्योत्तरम तथा अन्यादुन गुण्य सैस्त नो पानीम शुद्धे धरोुश्च भाज्याल मुने साम कद वर्ग सै तमें बाहुकृतिबुध हम त्याम त्यवा कृतिमूल न्यसे पृथक द्विगुणेना मुना भक् फल मूले न्यसे क्रमादत्कृति त्यजेमूल विभजे पुनः एवं मुहुर्वर्गमूल जायेज जा मुनीशर सम त्र्य प्रोको घनस्तत्र विधिपदे प्रोच्यते विषमं त्वाद्यं समे द्वे च ततः परं विचोद्यं विषमाद्यं त्याद्धनं तन्मूलमुच्यते त्रिघ्नाद्भजन्मूलकृत्या समं मूले न्यसेद्भनं तत्कृतित्वेन घनं च विषमादेवं घनमूलं मुहुर्भवेद् अन्योन्यहारनिहदौ हरांशौ तुसमुच्छिदा लवा लवघ्नाश्च हराहरघ्नाहि सवर्णनं भागप्रभागे विज्ञेयं मुने शास्त्रार्थ चिन्तकैः अनुबन्धे पवाहे क्षैकस्य चेदधिकोनकः भागस्तलस्तहारेण हरं तान् ऊनेन चापि गुणयेद्धनर्णं चिन्तयेत्तथा कार्यस्तुल्यहरांशानाम् योगश्चाप्यन्ततो मुनेः आहारराश्यौतुप्यं तु कल्पयेद्धरमप्यथा अंशा हदिश्चेदकादहृद्भिन्नगुणेन फलं चेदं चापिलवं विद्वन्परिवर्त्य हरस्य च शेषकार्यो भागहारे कर्तव्यो गुणनाविधिः हारांशयो कृगे कनौ कनविधौ मुने पदे कुर्यादधोरवं सर्वतश्चरवम् छेदं गुणं गुणं छेदं वर्गं मूलम् पदं कृतिं ऋणं स्वं स्वमृणं कुर्यादृश्ये राशिप्रसिद्धये अध स्वां शाधिको नेतु लवाढ्यो नोहरो अंशस्त्वविकृतस्तत्र विलोमे शेषमुक्तवद उद्दिष्टा राशिहि संक्षिप्तौ हृदोंशैरहितो युतः इष्टघ्नदृष्ठेनैतेन भक्तराशिरनीशिदः यो गोऽन्तरेणो नयुधो द्वितो राशीतः सङ्क्रमे राश्यन्तरहृदं वर्गोत्तरं यो सुतश्च तौ गजग्रीष्टकृतिर्वैक्या गजग्रीष्टकृतिर्व्यैका दलिता चेष्टभाजिदा एकोऽस्य वर्गो दलितः सैको राशिः परो मदः द्विगुणेष्ठहृतं रूपं श्रेष्ठं प्राग्रूपकं परम् वर्गयोगान्तरे व्यगे राश्योर्वर्गोस्तयेदयोः यिष्टवगे कृतिश्चेष्टखनोष्टग्रौ च सौककौ येषिष्यानामुभे व्यक्ते गणिते व्यक्तमेव च गुणघ्नमूलो न युतस् स गुणार्थे कृतं पदं दृष्टस्य च न युदं वर्गीकृतं गुणः यदा लवो न पुंराशीर्दृश्यं भागो न युग्भुवा भक्तं तथा मूलगुणं ताभ्यां साभ्योद्धव्यक्तवद प्रमाणेच्छे सजातीये आद्यन्ते मध्यगं फलम् इच्छ्नमाद्य हृत्स्रेष्ठं फलं व्यस्ते विपर्ययाद, विपर्ययात् पक्षं कृत्वा फलचिदां बहुराशिवदं भक्ते फलं स्वल्प वधेन च इष्टकर्मवधे मूलं च्युदं मिश्रात् कलान्दरे मानघ्नकालश्चादिदकालाघ्नफलसंहृदाः स्वयोगभक्तानिघ्नाुसंप्रयुक्तदलानि च बहुराशि फलात् स्वल्पराशिमासफलं बहु चेद्राशिविवरं मासफलान्तरहृदं च यः क्षेपामिश्रहदाः क्षेपो योगभक्ता फलानि च भजे चिदों कालश्च पूर्तिकृत पूर्णो गच्छेत् समेध्येव्ये समे वर्गोऽर्धिदेत्यदः व्यस्तं गच्छदं फलं यद्गुणवर्गं भचहिति तद् व्येकं व्येकगुणात्तं च प्रार्थनं मानं गुणोत्तरे भुजकोटिकृतियोगमूलं कर्णश्च दोर्भवेद् श्रुति कृत्यन्तरपदकोडिर्धो कर्णवर्गयोः बिं वरात्तत्कर्णपदं क्षेत्रे त्रिचतुरस्रगे राह्योरन्तर्वर्गेणद्विघ्नेकादे युधे तयोः वर्गयोगोधयोगान्त हन्तिर्वर्गान्धरं भवेद् व्यास आकृति संक्षन्नो व्यासः स्यात् परिधिर्मुने ज्याव्यासयोगविवराहतमूलो नितोर्धितः व्यासशरशरोनाञ्च व्यासात् शरगुणात्पदं द्विघ्नं जीवादजीवार्थवर्गे हर हृदे शरहृदे युदे व्यासोष्टते भवे देवं प्रोक्तं गणितकोविदैः चापो ननिघ्नः परिधिक्प्रगङ्लक् परिधे कृते तुल्यांशेन शरघ्नेनाघेनिनाधं च दुर्गणं व्यासघ्नं प्रभजद्विप्रज्ञाकाशं जायते स्फुटा ज्याङ्घ्री शुध्नो वृत्तवर्गो दिघ्नव्यासाढ्यमौर्विहृद लब्धो न वृत्तवर्गाद्रिपदेर्दात्पदिदे धनुः स्थूलमध्या पृवन्न वेधो वृत्ता का शेषभागिकः वृत्ताङ्गांशकृतिर्वेदनिप्रिय नकरामितौ वाजिव्यासहदं दैर् ्यं वेदाङ्गुलहदं पुनः करवेन्दुरामविहदं मानं द्रोणादिवारिणः विस्तारायामवेधानां अङ्गुलोऽन्य नाडिघ्नाः रसां काभ्राब्धिभिर्भक्ता धन्ये द्रोणादिकामिधिः उत्सधव्यासदैर्भ्याणा मङ्गुल्यान्यस्य नो द्विज मिथोऽघ्नादि भजेत् स्वाक्षे शैर्द्रोणादिमिधिर्भवेद् विस्ताराद्यं गुलान्येवं मिधो घ्नान्यपसां भवेद् वाणेभमार्गनैर्लब्धं तृणाद्यां मानमादिशेद दीपशङ्कुतलचित्रघ्नः शङ्ुर्भवैं शङ्ुर्भैवं भवेन्मुने नरो नदीपकशिखौच्यभक्र्यो ह्यदभोध्वने शङ्कौ नृदीपाधश्चिद्ध्रघ्नैर्दीपौच्यं नरान्विदे विंशुदीपौच्यगुणाच्छाया शङ्कुद्धृता भवेद् दीप शं कुवं तरं चा दच्छायाग्रविवरघ्नभा मानान्तरदृद्भूमि स्यादधो भुनराहदिः प्रभाप्ता जायदे दीपशिखौच्यं स्यात्रिराशिकादयेदत् संक्षेपदप्रोक्तं गणिते परिकर्मकं ग्रहमध्याधिकं वक्ष्ये गणिते नादिविस्तरान् युगमानं स्मृतं विप्रकचतुष्करदार्णवाह तद्दशांशास्तु चत्वार कृताख्यं पादमुच्यते त्रयश्रेदाद्वापरद्वौ कलिरेखः प्रकीर्तिदः मनु कृदाब्दसहिता युगानामेकसप्तदिः विधेर्दिने स्युर्विप्रेन्द्रमनवस्तु च दुर्दश तावत्येव निशादस्य विप्रेन्द्र परिगीर्तिदा पीकर्तिदुवा शरगदाननब्दान सं पिंड्यनारद खचरानयनम का मधवेष्टुगा युगेशूर्यशुक्राण गुरु गुरशुक्राण भगणा भूदर इंदोरसाग्निषु सप्तूधर मगण दस्रियासिचना कजस्तु बुधशीख्र सेकन गेन्दवः बृहस्पदे कदस्राक्षिवेदस्रंहूयस्तथा शिरशीकृस्य यश्नसत्रियमाश्विश्वभूधराः शनेर्भुजगषट्पचरसेदनिशाकराः चन्द्रोञ्जस् स्याग्नि शून्याक्षि वसुसर्पार्णवायुगे वामं पदस्य चस्वग्न्यमाश्विशिखिदस्रकाः उदयादुदयं भानोर्भूमयि साचेन चन वासराः वसुद्यष्टाद्रिरूपां कस्सप् दृतिधयो युगे षड्वहित्रिहुदा शाङ्कदिथयश्चाधिमासकाः तिधिक्षयायमार्थाक्षेद्व्यष्टव्योमशराश्विनः रव च दुष्कासमुद्राष्ट कूर्प च रविमासकाः षट् त्रि अग्निवेदग्निपञ्च शुभ्रांशुमासकाः प्रागादे सूर्यमन्दस्य कल्पे सप्ताष्टवह्नयः कौजस्य वेदस्वयमा बौद्धस्याष्टर्तुवह्नयः रवरवरन्ध्राणि जैवस्य शौक्रस्यार्द्धगुणेशवः गोघ्नयशनिमन्दस्य पादानामधवामदः मनो दद्रास्तु कौजस्य बौद्धस्याष्टाष्टसागराः घदार दिचंद्र जवैकवनक शनिपाद सेगणक यमर शर्तवनयुगे पान भगणिधा मीकृद युद्स मधुशुक्लागद हृदधासिधिमासग्रासूर्यमासविभाजिताः अधादिमासकैर्युक्तादिनीकृत्य दिनान्विताः द्विष्ठास्ति दीक्षयाभ्यस्ताश्चान्द्रवा सरभाजिताः रथो मासाब्द सावनोद्योगसादर्कादिर्दिनमासाब्दयास्तदः सप्तभिः क्षपितशर्षः मूर्याद्यो वासरेश्वरः मासाब्ददिन संख्या संद्वित्रिघ्नं संयुधं सप्तोर्धनावशेषौदौ विज्ञेयौ मास वर्षपौ स्नेहस्य दिनराशिक विभाजिदो दिनराशिकुवासरः विभाजिदो मध्यगत्या भगणादिर्ग्रहो भवेद् एवं ह्यशीघ्रमन्दाञ्च ये प्रोक्ता पूर्ववापिनः विलोमगदयः पादास्तद्वञ्चक्राश्विशोधिताः योजनानि शदान्यष्टौ भूकर्णौ द्वि गुणास्मृतः सधर्गदुणापू पंबज्यान स्व जीवा स्फु भू पिधिस्वना देशाभ्यस्ता ग्रहभुक्तिर्भाजि कालाफल प्राथ् ग्रहेब्य परिचोधयेत् रेखाप्रतीचिसंस्थाने प्रक्षिपेत्स्युस्वदेशदः राक्षसातपदे वौकशैलयोर्मध्यसूत्रगाः अवन्तिकारोहधिकं तथा सन्निहितं सरः वारप्रवृत्तिवाग्देशे क्षयार्थेभ्यधिको भवेद् तद्देशान्तरनाडीभि पञ्जादूने विनिर्दिशेद इष्टनाडीगुणा भुक्तिषष्ट्या भक्ता कलादिकं व्यदे शोद्यं तथा योज्यं गम्येतात्कालिको ग्रहः भचक्रलिप्ता शीत्यंश परमं दक्षिणोत्तरम् विक्षिप्यते स्वपादेन स्वक्रान्त्यन्तादनुष्णगुः तत्र वा संद्विगुणिदजीवश्रिगुणिदं गुजः बुधशुक्रार्कजाः पादैर्विक्षिप्यन्ते च दुर्गुणं राशिलिप्ताष्टमो भागः प्रथमं ज्यार्धमुच्यते ततो द्विभक्त लब्धो न मिश्रितं तद्विदीयगम् आद्य नैव क्रमात् पिण्डान् भक्ताल्लब्धो नितैर्युधान् सप्तरन्ध्रगुणेन्दवः तद्गुमज्या त्रिजीवात्ता तञ्चापं क्रान्तिरुच्यते ग्रहं संशोध्य मन्दोञ्च तथा शीक्नाद्विशोध्य च शेषं कन्तपदं तस्माद्भुज्य कोटिरेव च भुजज्ञ्या विषमे गम्या कोडिः पदे भवेद् समेधिगम्याद्बाहुद्यजा कोडिज्यानुगदा भवेद, लिप्तास्तत्त्वयमैर्भक्ता लज्या पिण्डकं गतं गदगम्यान्तराभ्यस्तं विभजे तत्त्वलोचनैः तद्वाप्तफलं योज्यं ज्ञापिण्डे गदसंज्ञके स्यात्क्रमज्ञाविधिश्चैव क्रमज्या गदा भवेद् लिप्तास्तत्त्वयमैर्भक्ता लब्धज्ञापिण्डगं गदं गदगम्यान्तराभ्यस्तं विभजे तत्त्वलोचनैः तदवाप्तफलं योज्यं ज्ञापिण्डे गदसंज्ञके स्याक्रमज्याविधिश्चैव मुक्रमज्ज्ञास्वपि स्मृतः ज्ञां प्रोह्य शेषं तत्वदाश्वि हं तद्वि वरोद्धृतं संख्यातत्त्वाश्वि संवर्ग्य संयोज्यं धनुरुच्यदे रवेर्मन्दरिध्यं समनवशीदगोरदाः युक्मान्ते विषमान्ते तुनकलिप्तो नितास्तयोः युक्मान्तेर्दाद्रयक्ग्निसुरासूर्यानवार्णवाः ओ जेत् व्यगाच सुयमारदारुद्रागजाब्धयः कुजादीनामदशौख्यन्यायुग्मां देर्धाग्निदश्रगाः गोग्रयः ओजा द्वित्रियमदाद्वि विश्वे यमपर्वताः कर्तुदस्नाविपद्वेदा शीघ्रकर्मणि कीर्तिदाः ओजयुग्मादरगुणा भुज जातृज्ययोद्धृदाः युग्मवृत्ते धनर्न स्यादो जादूनेऽधिगे स्फुटम् तद्गुणे भुजकोडिज्ये भगणां शविभाजिरे तत् भुजज्ञाफलधनुर्मान्दं लिप्तादिगम्फलं शय्यकोटिबलं केन्द्रे मकरादौ धनं स्मृदं संशोध्यं तु त्रिजीवायां कर्कादौ कोटिजं ृज्याभ्यस्तं भुजफलं मकरादौ धनं स्मृतं संशोध्यं तु त्रिजीवायां कर्कादौ कोडिजं फलं तद्बाहुफलवर्गैक्यान्मूलं कर्णश्चलाभिधः कृज्या भग्ध्यस्तं भुजफलं फलकर्णविभाजितं लब्धस्य चापं लिप्ताभिफलं शैख्र्यमिदं स्मृतं यददादौ कुजादीनां चतुर्धे चैव कर्मणि माद्यं कर्मैकमर्केन्द्वोर्भौ द्वोर्भौमादीनामादोच्यदे शैध्य मद्यम पुनर्माद्यम शैख्यम चुनुक्रद अजा केन्द्रेषा मंद्ये शैख्य जगर्मणि धन ग्रहाणमे ग्रह भुक्ति विभाजिद भचक्रकलिकाभिस्तु लिप्ता कार्याग्रहेऽर्कवद का ग्रहभक्तफलं कार्यं ग्रहवन्मन्दकर्मणि कर्कादौ तद्धनं तत्र मकरादावृणं स्मृतं दौर्जोत्तरगुणाभुक्तिस्तत्त्वनेत्रोद्धृदा पुनः स्वमन्दपरिधिक्षुण्णा भगणां शोद्धृदा कलः मन्दस्फुटकृदा भुक्ति शीघ्नो च भुक्तिदः तच्चेर्षं विवरेणाद अन्या त्रिज्याङ्गकर्णयोः चक्रकर्णहृदं भुक्तौ कर्णे त्रिज्याधिके धनम् ऋणमूनेऽधिके प्रोह्य शेषं वक्रगतिर्भवेदर् क्रदुर्तु चन्द्रैर्वेदेन्द्रैः शून्यत्रियेगैर्गुणाष्टभिः शररुद्रैश्चातुर्यांशु केन्द्रांशेर्भूसुदादयः वक्रिणश्चक्र शुद्धैस्तैर्हंसैरुजुदिविक्रवक्रदां प्रमज्या विशुवद्भाग्नी क्षिदिज्या द्वादशोधृता तृज्या गुणा दिनव्यासभक्ता चापं च शत्रवः तत्कार्मुगमुदक्रान्तौ धनहीनो पृथक्षरे स्वाहो स्वाहोरात्रचतुर्भागे दिनरात्रिदले स्मृदे याम्यक्रान्तौ विपर्यस्ते द्विगुणैदे दिनक्षये लिप्ता भोगोष्ठशक्तिर्लिप्ता स्वाशिवशैलौस्तधाति देहे ग्रहलिप्ता भगभोगाभानि भुक्दिनाधिकं रवीन्दुयोगलिप्तास्तु भोगाभोगभाजिदाः गदगम्याश्च षष्ठिघ्ना भुक्तियोगाप्तनाडिकाः अर्को नचन्द्रलिप्तास्तु तिधयो भोगभाजिदाः गदगम्याश्च षष्ठिघ्ना नादो भुक्ततरोद्धृताः तिथयः शुक्लप्रतिपदोद्विघ्न सैकनगाहदाः शैषं भवो बालवश्च कौलभस्तै तिलोगरः भवे भूदा भवेद्विष्टिकृष्णभूदापरार्धदः शकुनिर्नागश्च दुष्पदः किं स्तुघ्न मे वज शिलातलेव संशुद्धे वज्रलेभे दिवासमे तत्र शकाङ्गुलैरिष्टैः सममण्डलमालिकेत् तन्मध्ये स्थापये शङ्घुं कल्पनाद्वादशाङ्गुलं तच्छायाग्रं स्पृश्येद्यत्र दत्तं पूर्वा पराह्णयोः विधायो भौ वृत्ते पूर्वा पराभिधौ तन्मध्ये तिमिना रेखा कर्तव्या याम्योत्तरदिशोर्मध्येतिमिना पूर्वपश्चिमा दिग्मध्यमत्स्यै संसाध्या विदिश्यस्तद्वदेवै चतुरस्तम्भै प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलं भामण्डलं च विषुवन्मण्डलं परिकीर्तितं रेखा प्राच्यपरासाध्या विषुवद्भाग्रया तथा इष्टच्छाया विषुवदोर्मध्ये ह्यग्राभिधीयते शङ्घुछाया कृतियुधेर्मूलं कर्णयो कर्णो यवर्गदः प्रोह्य शङ्घुकृतेर्मूलं छाया चेगुविभर्ययाद त्रिंशत्कृत्यो युगे भानां चक्रं प्राक् परिलम्बदे तद्गुणाद् भिनैर्भक्र्या द्युगणाद्यदवाप्यदे तद्दोसृग्नादशाधनां विज्ञेया अयथा निधाः तत्सं स्वकृदाहात् कान्तिच्छाया वरदलादिकं शङ्कुच्छायाफदे त्रिज्ये विशुवत् कर्कभाजिदे लम्बाक्षज्ये तयोच्छाये लम्बाक्षौ दक्षिमौ सदा साक्षार्कापक्रमयुधिर्दिक्साम्येन्दरमन्यधा शेषहान्यां सा सूर्यस्य तद्वाहुज्याधकोडिजा शङ्कुमानाङ्गुलाभ्यस्ते भुजत्रिज्ये यथां क्रमं कोडिज्याया विभज्याप्ते छायाकर्म बहिर्दले दिक्साम्ये दिक्साम्येतरमन्यधा दिक्भेदो ज्या त्रिजया हदा परमोपक्रमज्याप्त चापमेपादिगो रविः करकादव प्रोह्य चक्रार्धा तुलादौ भार्ध संयुताद मृगादौप्रोह्यचक्रात् कस्पुडो भवेद तन्मन्दमसगृद्धा मं फलं मध्यो दिवाकरः ग्रहोदया प्राणहदा ककाष्ठैकोद्धदा गतिः चक्रासवो स्वाहोरात्रार्थभाजिदाः क्रमादेघ द्वि त्रिभ्यात् तच्चापानि पृथक् पृथक् स्वाधोधप्रविशोऽध्याधमेषां लङ्गोदयासवः स्वागाष्टयोर्थगोघैका शरत्रियेगम् मांशवः स्वदेशचरखण्डो न भवन्ति तिष्ठोदयाशवः व्यस्तव्यस्तयुधास्तैस्तैः कर्कणाद्यास्तदस्तु यः उत्क्रमेण षडे वैदे गदभोग्या शवः कार्या सायनास्वेष्टभास्कराः स्वेदया सुहदा भक्र्या भक्तभोग्या स्वमानदः अभीष्टधीष्टधिकासुभ्यो भोग्यासून् प्रविशोधयेद् तद्वदेवैश्यलग्नासूनेवं व्याप्तास्तथा क्रमादशेषं त्रिंशत्क्रमाध्यस्तमशुद्धेन विभाजितम् भागयुक्तं जहिनं च व्ययनांश्यं तनुखुजे प्राक्पश्चान्नदनाडीभ्यस्त तद्वल्लङ्गोदयासुभिः भानौक्षयधने कृत्वा मध्यलग्नं तदा भवेद भोग्यासू नून कस्याद भोक्तासूनधिकस्य च स पिण्ड्यान्तरलग्नासु नेवं स्यात्कालसाधनं विराह्वर्क भुजां शाश्चे दिन्द्राल्पा स्याद्ग्रहो विधोः तेषां शिवघ्ना शैलाप्ता व्यावर्काजरोङ्गुलैः अर्कं विधुर्विधुं भूभा चादयत्यथाच्छन्नकम् छाद्यच्छादकमानार्थं शरोणं ग्राह्यवर्जितम् तत्स्वच्छन्नं च मान्यैक्यार्धांश षष्ठं दशाहदं छन्नघ्नमस्मान्मूलं तु काङ्गोनग्नौ वपूर्हृदं स्थित्यर्थं खडिकादि स्याद्व्यङ्गबाह्वंशसंमितैः इष्टैफलैष्ट तदुनाड्यं व्यगावूनेर्कशङ्गुणः सधन्यधा दिगे तस्मिन्नेवं स्पृष्टे सुखान्त्यगे ग्रासने ते तेच्छाद्य मानामे स्युर्विशोपकः पूर्णान्दम् मध्यमात्र स्याद् दर्शां तें जं त्रिभोनकं पृथक् तत्क्रान्त्यक्षभागसंस्कृतौ स्यूर्नदांशकाः तद्धे ग्नां सकृनार्तार्कयुधाहरिः त्रिभानाङ्गार्क विश्लेषां शों श्योनघ्नाः पुरन्तराः हराप्तालम्बनं स्वर्ण वेत्रिभेर्काधिको नवे विश्वघ्नलम्बनकलाढ्यो नस्तुतिधिवद्यगुः शरो त्रिभाद न दां शास्तजांसाने प्राहृतस्तद्विवर्जित शब्देन्दुलिप्तैषड्भिस्तु भक्दानदिर्नधिर्नदां शदिक तयोर्नाट्यो हिन्नैक दिक्षरस्फुटदां व्रजेद ततश्चन्नस्तिदले साध्ये स्थित्यर्थषिभिः अंशस्तैर्विं त्रिभं द्विस्थं लम्बनेतयोपूर्ववद संस्कृतेस्ताभ्यां स्थित्यर्धे भवदस्फुटे ताभ्यां हीनयुधो मध्यदर्शकालौ मुखान्तगौ अर्काद्युना विश्व ईशानवपञ्चदशांशकाः कालां शास्त्रैरुनयुक्तो रवौ ह्यस्तोदयौ विधोः दृष्ट्वा ह्यादौ केडबिम्बं दृगौ ज्ये लम्बमिष्यज तल्लुम्बपाबिम्बान्तर्दृणव्याप्तर विघ्नभाः अस्ते सावयवाज्ञेया गदैष्यास्तिथयो बुधैः व्यस्ते युक्तान्दिभागैश्चद्विघ्नतिथ्याहृदास्फुटं संस्कारदि संस्कारादि कलम्बनमङ्गुलाद्यं प्रजायते सेश्वशोनाश्रितं तिद्यो बलन्नाश्योन्नतं विधोः श्रृङ्गमन्यत्र उद्वाच्यम्बरनाङ्गुलेखनाद् पञ्चत्वे गोङ्कविशिखाशेषकर्णहदा पृथक् विकृज्य काङ्गद्धाग्निभाक्तालब्धो न संयुधाः तृज्याधिको ने श्रवणे वपुं शिष्युर्हृदा कुजाद ऋज्योरानृज्योर्विवरं गत्यन्तरविभाजितं वक्रस्तोर्गतियोगामम् गम्ये दीरे दिनाधिगं घनत्यसंस्कृत वेषु दक्षाम्येण्येन्दरं युधि याम्योदकिडविवरं मानौ ह्याधोल्पगं यदा यदा भेदोलम्बनाद्यं स्फुटार्धं सूर्यपर्ववदत् एकायनगदौ स्यादां सूर्याचन्द्रमसौ यदा तयुधे मण्डले क्रान्त्यौ तुल्यत्वे वै दृदाभिधः विपटितायनगदौ चन्द्रार्कौ क्रान्ति लिप्तिकः समास्तदा व्यदीबादो भगणार्थे तपो भास्करें द्वोर्भचक्रान्तचक्रार्तावधि संस्थयोः दृकल्पसाधितांशाधियुक्तयोस्वावक्रमौ अधोजपदगम्येन्दोक्रान्तिर्विक्षेपसंस्कृताः यदि स्यादधिकभानो क्रान्ते पादो न्यूना चेत् स्यात्तदा भावी वामं युगयुग्मपदस्य च यदन्यत्वं विधो क्रान्तिः क्षेपा चेद्यधिशुद्ध्यदि क्रान्त्योर्जेतृज्ययाभिस्ते परमायक्रमोद्धे तच्चापान्धर्मयोर्ज भाविन शीतगौ शोध्यं चन्द्राद्गदे पादे तत्सूय गदिताडितं चन्द्र भोग्र्या हृदं भानौ लिप्तादिशिवद्फलम् तदुच्च शाङ्कपादस्य फलं देयं विपर्ययाद कर्मै तदसकृतावत्क्रान्ति यावत् समेधयोः क्रान्त्यः समत्वे पादोऽधप्रक्षिप्तांशोनिधेविधौ हिनेर्ध्वरात्रकिकाकदो भावेतात् कालिको कालिकेधिका स्थिरीकृतार्धरात्रार्धौ द्वयोर्विवरलिप्तकाः षष्टिश्चाचन्द्रभुक्ताब्दा पादकालस्य नाटिकाः रवीन्द्वोर्मनयोगार्धं षष्ट्याः सङ्गुण्यभाजयेद् तयोर्भुक्तयन्तरेणा स्थित्यमर्थां नाडिकादिवद पादकालस्फुटो मध्यस्य विस्थित्यर्थवर्जितः तस्य सम्भवकालस्यास्तत्संयोगे कसंज्ञकः आद्यन्तकालयोर् मध्ये कालो ज्ञेयोधिदारुणः प्रज्वलज्ज्वलनकारसर्वकर्मसुगर्हितः इत्येतद्गणितो किञ्चित् प्रोक्तं सङ्क्षेपतो द्विजा जातकं वच्मि समयाद्राजि संज्ञापुरःसरम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे ज्योतिषवर्णनं नाम चतुपञ्चाशत्तमोऽध्यायः ओम्